श्रीहरये नमः अथ दसमोऽध्यायः श्रीसुख उवाच अत्र सर्गो विसर्गश्च स्थानं भोषणमूतयः मन्वन्तरे सानुगथानिरोधो मुक्तिराश्रयः तसमस्य विशुद्ध्यर्थं नवानामिकलक्षणम् वर्णयन्ति महात्मानश्रुतेनार्धेन साञसां भूतमात्रेन्द्रियधियां जन्मसर्गबुधाहृतः ब्रह्मणो गुणवैषम्याद्विसर्गपौरुष स्मृतःं स्थितिर्वैकुण्ठविजयपोषणं दधनुग्रगहां मन्वन्तराणि सन्धर्म ऊतयः अवधारानुचरितं हरेश्चास्यानुवर्तिनां सतामीसकथः प्रोक्ता नानाख्यानो बृह्मिताः निरोधोऽस्यानुशयनम् आत्मनः सह शक्तिभिः मुक्तेर्ह्यत्वान्यथा आभाश्च निरोधस्य यतश्चात्यवसीयते स आश्रयः परं ब्रह्मा परमात्मेति श्यते योध्यामिकोऽयं पुरुष सोऽसौ एवादिदैविकः यस्तत्रोभयविश्वेतः पुरुषो ह्याधिभौतिकः एकमेकतराभावे यथा नोपलभामहे धृतयं तत्र यो वेतः आत्मस्वाश्रयाश्रयः पुरुषोऽपिध्य यथासौ स विनिर्गतः आत्मनोयनमन्विच्छन् अपो श्राक्षित् सुषिक्षुषिहे तास्व वाचित् स्वरुष्ठासु सहस्रपरिवत्सरान् तेन ना नारायणो नाम यदा बः पुरुषोद्भवाः द्रव्यं कर्म च कालश्च स्वभावो जीव एव च यदनुग्रहतश्चन्ति नशन्ति यदुपेक्षया एको नानत्वमन्विश्चन् योगतल्पात् समुत्थितः वीर्यं हिरण्मयं देवो मायया व्यसृजत्रुधा अधिदैवं अधिभूतमितिः प्रभुः यतैकं पौरुषं वीर्यम् त्रिधा विद्यतशृणो शरीर आकाशात पुरुषस्य विशेषतः ओजः सखो बलं जज्ञे ततः प्राणो महानसुः अनुप्राणन्ति यं प्राणा प्राणन्तं सर्वजन्तुषो अपानंतं अपानन्ति नरदेवमिव अनुगाः प्राणेन शिपताश्रोद् दृढन्तराजायते प्रभोः पिपासतो जक्षतश्च प्राङ्मुखं निरभिद्यत निर्भिन्नं जिह्वा तत्रोपजायते ततो नानारसो जज्ञे जिह्वा यायोधिगम्यते विवक्षोर्मुखतो भुम्नो भग्निर्वाग्व्याहृतं तयोः जले वैतस्य सुचिरं निरोधक् समजायत नाशिके निरभिद्येतां धोतु यतिनभस्वति न भस्वते तत्र वायुर्गन्तवहो घ्राणो न सिजिकृक्षतः यदात्मनि निर्भिख्यक्षिणी स्तः ज्योतिश्चर्गुणग्रगहा ऋषिजिग्रशतहां कर्ण चरभितेता दिश्रोत्र गुणग्रगहा वस्तुनो मृतु काठिन्युर्वोष्ण सीतता जिग्र्शतस्व तस्यां रोम महीरुहाः तत्र शान्तर्भकेर्वातस्वचालब्धगुणो वृथा ह्यस्तौ रुरुहतुस्तस्य नानाकर्मचिकीर्षया तयोस्तु बलमिन्द्रश्च आदानम् उभयाश्रयं गतिं जिकीक्षतः पादौ रुरुहाधेमिकामिकां पद्भ्यां यज्ञस्वयं हव्यं कर्मभिः निरभित्यत शिष्णो वै प्रजानन्दामृतार्तिनः उपस्त आसीत् कामानां प्रियं तदुभयाश्रियम् उत्सितृषोर्धातुमलं निरभिद्यत वै गुथं मित्र उत्सर्ग उपयाश्रयः असिश्रुक्षो पुरः पुर्यात् नाभिद्वारम् अपानतः तत्रापानस्तथो मृत्यो पृथक्मुपयाश्रयम् आदित्यो अन्नपानामासन् घुष्यन्द्रनाढयः नद्य समुद्राश्च तयोस्तुष्टिष्टिस्तथाश्रये निदित्या हृदयं निरभिद्यत ततो मनस्ततश्चन्द्रः सङ्कल्पः कामयेव च त्वक्चर्म मां सरुतिरः मेधां मज्जास्ति धातवः भूंव्यप्ते ज्योमया सप्त प्राणो व्योमां भुवायुभिः गुणात्मकानिन् भूतादिप्रभवा गुणाः मनःसर्वविकारात्मबुद्धिर्विज्ञानरूपिणे एतद्भगवतो रूपं स्थूलं ते व्याहृतं मया मह्यादिभिश्चावरणै अष्टभिर्बहिरावृतम् अतः परं सूक्ष्ममथमव्यक्तं निर्विशेषणम् अनादिमद्य निधनं नित्यं वाङ्मनसः परम् अमूनि भगवद्रूपे मया ते अनुवर्णिते उभे अभिनगृह्णन्ति माया सृष्टे विभश्चितः सवाश्च वाच कथया भगवान् ब्रह्मरूपदृग् नामरूपक्रिया धत्ते सकर्म कर्मकः परः प्रजापतीन् मनो ऋषीन् पितृगणान् पृथक् सिद्धचारण गन्धर्वान् विद्यात्रासुरगुह्ययान् किन्नराप्सरसो नागान् सर्पान् किं पुरुषोरघान् मातृरक्षपिसाचांश्च प्रेदभूतविनायगान् कूष्माण्डोन्माधवेताळान् याधुधानान् गृहानपि गगान् मृगान् पशोन् वृक्षान् ग्रीन्द्रुपः सरीश्रुपान् द्विविधाश्चतुर्वितो येन् येन् जलस्तलनभौगसहां कुशला कुशला मिश्राकर्माणां गतयस्त्विमाहां सत्त्वं रजस्तमयिति स्तिस्रान् सुरन्नारकाः तत्राप्येकैकसौ राजन् विद्यन्ते गतयस्त्रिधां यदैकैकतरोन्याभ्यां स्वभाव उपहन्यते स जगद्धाता भगवान् धर्मरूपधृग् पुष्णातिस्थापयन् विश्वं तिर्यन्नरसुरात्मभिर् ततः कालाग्निरुद्रात्मा यस्तृष्टमिधमात्मनः सन्नियश्चति कालेन गणानिकमिव अनिलः इत्थं कथितो भगवान् भगवत्तमः नित्तं हि परम् द्रष्टुमर्हन्ति सूरयः नास्य कर्मणि जन्मातौ परस्यानुविधीयते कर्तृत्वप्रतिषेधार्थं मायया आरोपितं हि ्रम्हण कल प्राकृत वैकृताः उदाहकृतवैकृता पीमाणच काल से कलक्षण विग्रह यहां पुरास्ताजा पद्म कलम तोनकवाच यदा कनो भवान् सूतक्षक्ता भागवतोत्तमः सचारतीर्थानि भुवस्त्यक्त्वा भन्तुन्सुतु स्त्यजान् कुत्र कौशारवेस्तस्य संवादोऽत्यात्मसंश्रुतः यद्वा स भगवांस्तस्मै पृष्ठस्तत्त्वमुवाचः बृहीणस्तदिदं सौम्यविधुरस्य विचेष्टितम् बन्धोद्यागनिमित्तं च ततैव आगतवान् पुनः सूत उवाच राज्ञा परीक्षिता पृष्ठो यदवोचन्महामुनिः तद्वो वितास्ये शृणुतराज्ञ प्रश्नानुसारतः इति श्रीमद्भगवते महापुराणे द्वितीयस्कन्धे अष्टादश साहर्स्यां पुरुषसंस्थानुवर्णनं नाम दसमोऽध्यायः इति द्वितीयस्कन्तः समाप्तः हरि ओं तस्तत् सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द